हरि ओम् श्रीसीतारामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे षोडश सर्गः रावणेन विभीषणस्य तिरस्करणम् विभीषणेनापि रावणम् निर्भस्य तत्स्थानान् निर्गमनम् सुनिवेष्टम् इतम् वाक्यम् उक्तवन्तम् विभीषणम् अब्रवीत्परुषम् वाक्यम् रावणः कालचोदितः वसेत्रः सपत्नेन क्रुद्धेनाशीविषेण च न तु मित्र प्रवादेन संवसे चत्रुसेविना जानामि शीलम् ज्ञातीनाम् सर्वलोकेषु रक्षस दृश्यन्ति व्यसने श्वेते ज्ञातीनाम् ज्ञातयश्च प्रधानम् साधकम् वैद्यम् धर्मशीलम् च राक्षस ज्ञात्योऽप्यवमन्यन्ते शूरम् परिभवन्ति च नित्यम् अन्योन्यसंवृष्टा व्यसने श्वाततायिन हे पच्छन्न हृदया घोरा ज्ञातयस्तु भयावहा श्रूयन्ते हस्तिभिर्गीता श्लोकापन् नव ने पुरा पाशहस्तात् नराम् दृष्ट्वा शृणुष्व गदतो मम नाग्निर्नान्यानि शास्त्राणि नानः ना पाशा भयावः घोराश्वास प्रयुक्तासु ज्ञातयो नो भयावः ग्रहणे नात्र समुचय हे कृत्स्नाद्भयान् ज्ञाति भयम् विद्यते गोशुसम्पन्नम् विद्यते ज्ञातितो भयम् विद्यते स्त्रीषु चापल्यम् विद्यते ब्राह्मणे तपहे, ततो नेष्टमिदम् सोम्य यदहम् लोकः सत्कृतः ऐश्वर्यम् अभिधात च रिपूणाम् मूर्नि च स्थितः यथा पुष्करपत्रेषु तोय बिन्दवह तोयबिन्दवः न श्लेषन्ति तथा नार्ये च सौहृदम् यथा शरदी मेघानाम् सिञ्चतामपि गर्जतम् न भवत्यम्बूसङ्क्लेद तथा नार्ये च यथा मधूकरस्तर्शात् रसम् बिन्दन् न तथा त्वम् अपि तथा नार्येषु सौहृदम् यथा मधुकरस्तर्शात् काशपुष्पम् पिबन्नपि रसम् अत्र न विद्येत तथा नार्येषु सौहृदम् यथा पूर्वम् गज गुह्य हस्तेन वैरजः दोषयत्यात्मनो देहम् तथा नार्येषु सौहृदम् योऽन्यस्त्वेवम्विधम् ब्रूयात् वाक्यम् एतन्निषचर अस्मिन् मुहूर्ते न भवेत् त्वां तु धिक् कूलपान्सनः इत्युक्त परुषम् वाक्यम् न्यायवादि विभीषणः उत्पपात गदापाणि चतुर्भिः सह राक्षसी अब्रवीच्च विभीषणः अन्तरिक्ष गत श्रीमान् प्राता वै राक्षसाधिपम् सत्सम्भ्रान्तोऽसि मे राजन् गृही माम् यद्यदिच्छसि ज्येष्ठो मान्यः पित्रुतमो न च धर्म पथि स्थितः इदम् हि परुचम् वाक्यम् न क्षमाम् व्यग्रजस्यते वाक्यम् मुक्तम् न गृह्णन् कालस्य वचमागतः सुलभः परुष राजन् सततम् प्रियवादिनः अप्रियस्य च पथ्यस्य च दुर्लभ बद्धम् कालस्य पाशेन सर्वभूतापहारिणः नश्यन्तम् उपेक्षे शरणम् यथा दीप्त पावकसङ्काशै चितै काञ्चन भूषणैः न त्वामिच्छाम्यहम् द्रष्टुम् रामेण निहतम् शरैः शुराश्च बलवन्तश्च कुतास्त्राश्च न ररणे काला विपन्ना सीदन्ति तु यच्चोक्तम् गुरुत्वाधीतमिच्छत आत्मानं सर्वथा रक्षे पुरीञ्चे मां स राक्षसां स्वस्ति चेत् सुगमिच्छामि सुखी भव मया विना निवार्यमाणस्य मया हि तैषणाय ते, ते, ते वचनं निजाचरे परान्तकाले हि गतायुशो नराय हितं न गृह्णन्ति सुहृद्भिरीतरीरितम् इत्याख्ये श्रीमद् रामायणे वाल्मीकीये योडशे युद्धकाण्डे ओडश